तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ दृष्ट्वैव तामरारोहां व्यथितौ सम्बभूवतुः तावुत्थायासनं हित्वा जग्मतुर्यत्र सा उभौ च कामसम्मत्ता उभौ प्रार्थयतश्च दक्षिणेतां करे शुभ्रूं सुन्दो जग्राहपाणिन उपसुन्दोऽपि जग्राहवामे पाणौ तिलोत्तमां वरप्रदानमत्तौ तावौरसेन बलेन च धनरत्नमदाभ्यां च सुरापानमदेन च सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ तौ कटाक्षेण दैत्येन्द्रावाकर्षति मुहुर्मुहुः दक्षिणेन कटाक्षेण सुन्दं जग्राहकामिनी वामेनैव कटाक्षेण उपसुन्दं जिघृक्षति गन्धाभरणरूपैस्तौ व्यामोहं जग्मतुस्तदा मदकामसमाविष्टौ परस्परमथोचतुः मम भार्या तव गुरुरिति सुन्दोभ्यभाषत मम भार्या तव वधूरुपसुन्दोभ्यभाषत नैषा तव ममैषेती ततस्तौ मन्युराविशत् तस्यारूपेण सम्मत्तौ विगतस्नेहसौहृदौ तस्या हेतोर्गदे भीमे सङ्गृह्णीतामुभौ तदा प्रगृह्य भीमे तस्यां तौ